ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं ट्वेन्टि किरिचक्ररथदेवताप्रकाशनम् हयग्रीव उवाच किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रिताः देवताश्च शृणुप्राज्ञ नाम यच्छृण्वतां जयः प्रथमम् पर्वबिन्द्वाख्यं सम्प्राप्ता दण्डनायिका सा तत्र जगदुद्दण्डकण्डकव्रातकस्मरी नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जय श्रियम् निर्खाद निर्खादनिर्भिन्नोद्धत दानवाः बाल विभावरी पयो नील बालमृगाङ्गांशुविभावनविभावरी किरिचक्र किरिचक्ररथेन्द्रस्य सालंकारायते सदा पुत्रिणी पुत्रिता शेष विश्वावर्तकदम्बिका तस्यैव रथनाभस्यद्वितीयं पर्वसंसृताः मोहिनी चैव स्तम्भिनी उत्फुल्ल एव प्रख्यं उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः मुसलं च कलं हालापात्रं मणिगणर्पितम् ज्वलन् माणिक्यवलयैर्बिभ्राणाः पाणिपल्लवैः अदितीक्ष्णकरालाक्ष्योज्ज्वालाभिर्दैत्यसैनिकान् दहन्ध्य इव निशङ्गं सेवन्ते सूकराननां किरिचक्ररथेन्द्रस्य तृतीयं पर्वसंश्रिताः अन्धिन्याद्याः पञ्चदेव्यो देवी यन्त्रकृतास्पदाः कठोरेणाट्टहासेन विन्दन्त्यो भुवनत्रयं ज्वाला इव तु कल्पग्ने रङ्गना वेषमाश्रिताः भण्डासुरस्य सर्वेषां सैन्यानां रुधिरप्लुधिम् लिलिक्षमाणा जिह्वाभिर्ललिहानाभिरुज्ज्वलाः सेवन्दें सततं दण्डनाथामुद्दण्डविक्रमां किरिचक्ररथेन्द्रस्य चतुर्थं पर्वसंश्रिताः ब्रह्माद्या पञ्चमीवर्ज्या अष्टमीरवर्जिता अपि षडेव देव्यषट्चक्रज्वलज्ज्वालाकलेवराः महता विक्रमौखेण विबन्ध्य इव दानवान् आज्ञया दण्डनाधायास्तं प्रदेशमुपासदे तस्यैव पर्वणोद्धस्ता त्वरितास्थानमाश्रिताः यक्षिणी शङ्किनी चैव लाकिनी हाकिनी तथा शाकिनी डाकिनी चैव तासामैक्यस्वरूपिणी हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः हा। पिबन्द्य इव भूतानि पिबन्द्य इव मेदिनीं त्वचं रक्तं तथा मांसम् मेधोऽस्ति च विरोधिनां मज्जानमधशुक्रं च पिबन्तयो विकटाननाः निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश धादुनादा युधि प्रोक्ता मोहने मारणे चैव स्तंभ ताडने तथा दुष्ट दैत्याना दुष्टदैतूलच निकृंदने पंडिता खंडिता शेष विपदो भक्तिशालीषु धानाथा युद्धि प्रोक्ता सर्वधाषु संस्थिता सप्ताह वारिधीनोर्मी माला संचुंतांबरा क्षणार्धेनैव निष्पातुं निष्पन्न बहु साहसाः शकटाकारदन्ताश्च भयङ्करविलोचनाः स्वस्वामिनीद्रोहकृतां स्वकीयसमयद्रोहां वैदिकद्रोहणादेवद्रोहिणां वीरवैरिणां यज्ञ्रोहृता दुष्टदेशमे सेव पौत्रिणी दंडनायिका तस्व पार्शे द्विद्यम क्रोधिनी स्तंभिनी ख्या वर्ते उभे सामरे विजयन्त्यौ च लोलकङ्कणदुर्लधे दे, देवद्विषां च मूरक्तकालापानमहोद्धते दे। सदा विखूर्णमानाख्यौ सदा प्रहसितानने अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च पार्श्वद्वयकृतावासमायुधद्वन्द्वमुत्तमं हलं च चा मुसलं चैव देवतारूपमास्थितं स्वकीयमुकुटस्थाने स्वकीयायुध विग्रहम् आबिभ्राणं जगशिखस्मरं विबुधै स्मृतं यददायुधयुक्मे ललिदा दडनायिका खण्डयिष्यदि सङ्ग्रामं विषङ्गं नाम दानहम् तस्यैव पर्वणो दण्डनाधाया अग्रसीमनि वर्तमानो महाभीमसिंहो दंष्ट्रा, बधिरी, दंष्ट्राकटकडात्कारबधिरीकृतदिङ्मुखः चण्डो चण्डयिदिख्यादश्चतुर्हस्तस्त्रिलोचनः शूलखड्गप्रेतपाशान्दधानो दीप्तविग्रहः सदा संसेवदे देवीं पश्यन्नेव हि पौत्रिणीं किरिचक्ररथेन्द्रस्य षष्ठं पर्वसमाश्रिताः वार्ताल्याद्या अष्टदेव्यो दीक्ष्वष्टासूप विश्रुताः अष्टपर्वतनिष्पादघोरनिर्खादनिःस्वनाः अष्टनागस्फुरद्भूष अनष्टबलतेजसः प्रकृष्टदोष्प्रकाण्डोष्महुदानवकोटयः सेवन्दे ललिता देव्यो दण्डनाधामहर्निशं तासामाख्याश्च विख्यातास्समाकर्णय कुम्भज वार्ताली चैव वाराही सा वाराह मुखी परा अन्धिनिरोधिनी चैव दृम्भिणी चैव मोहिनी स्तम्भिनीधि ऋभुक्षोभस्तम्भनोच्चाडनक्षमाः तासां च पर्वणो भागे सदद संस्थितिः दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः अर्धक्रोशायदशृङ्गद्विधये क्रोशविग्रहः काल खड्गवन्निष्ठुरैर्लोमजादैस्समृतविग्रहः कालदण्डवदुच्चण्डबालकाण्डभयङ्करः नीलाञ्चनाचलप्रख्यो विकटोन्नदरुष्टभूः महानीलगिरिश्रेष्ठगरिष्ठस्कन्धमण्डलः प्रभूतोष्मलनिश्वासप् प्रसरा कम्पिताम्बुधिः कर्करध्वनिना कालमहिषं विहसन्निव विक्षिप्त पुष्कला पुष्कलावर्तवारिधः तस्यैव पर्वणोद्धस्ताच्चित्रस्थानकृतालयाः इन्द्रादयोनेकभेदा दिशामष्टकदेवताः ललितायां कार्य सिद्धि विज्ञापयता सुष्टिकोट सिद्धग्निस्ध्यादेस्तरे विश्वर्मा मय्च माधरश्चोनता रुद्राश्च पिचरा रुद्राश्चैव पिशाचकाः क्रन्दन् चिरक्षसां ना राक्षसा बहवस्तथा मित्राश्च तत्र गन्धर्वाः सदा गानविशारदाः विश्वा वसुप्रभृतयो विख्यातास्तत्पुरोगमाः तथा भूतगण्शन्ये वरुणो वास्तव पर कि मेर तथा चिंत्ररथ रथकारकुरोर्नादो नारदो यक्षसोमो यक्ष देवैश्च भगवांस्तत्र गोविन्दकमलापतिः ईशानश्च जग्चक्रभक्षकशूलभीषणः ब्रह्म चैवाश्विनीपुत्रो वैद्यविद्याविशारदौ धन्वन्तरिश्च भगवानधान्ये गणनायकाः कडकाण्डगलदान सन्तर्पितमधुव्रताः अनन्तो वा सुकिस्तक्षः गुलिकसुबलस्तथा यदे नागेश्वराश्चैव नागकोटिभिरावृताः देवताग्री पूर्वादिदिश्य पीधकृत मिरा दवताचक्रे चक्रकारा मरुदिश आश्रि स्तंभिनी वर्दंधादेवतानी मोहिनी धस्रे च तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः कपालञ्च गदाम् बिभ्रदूर्ध्व केशो महावभुः पातालतलजम्बालबहुला कारकालिमा अटहास्तमहावज्रदीर्णब्रह्माण्डमण्डलः बिन्दण्डमरुक् कध्वानै रोदसी कन्धरोदरं फूत्कारी त्रिपुरायुक्तं फणिपाशं करे वहन् क्षेत्रपालसदाभाधिसेवमानः किडीश्वरम् तस्यैव च समीपस्थस्तस्य वाहनकेसरी यमारुह्य प्रववृदे भण्डासुरबधैषिणी प्रागुक्तमेव देवेशी वाहसिंहस्य लक्षणं तस्यैव वा पर्वणोधस्ताद्दण्डनाधा समत्विशः। दण्डिनीसदृशा शेषभूषणायुधमण्डिताः संया क्रोडा ननाश्चन्द्ररेखोत्तं सितकुन्तलाः हलं च मुसलं हस्ते कूर्णयन्त्यो मुहुर्मुहुः ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनी द्रुहाम् रक्तस्रोतोऽभिरुत्कूलैः पूरयन्त्यः कपालकं निजभक्तद्रोहकृता मन्त्रमाला विभूषणाः स्वगोष्ठीसमायाक्षेपकारिणां मुण्डमण्डलैः अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसिक्रजः सहस्रं देवदा प्रोक्ता सेवम किड़ीश्वरी तवास दंडिन्या कुंभसंभव सहस्रनाध्या वक्ष्यधुना पुनः अथ समीपतः वाहनं कृष्णसारङ्गो दण्डिन्यासमये स्थितः क्रोशार्धार्थायदशृङ्गे तदर्थार्थायदोमुखे क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः उदरे धवलचायो हुङ्कारेण महीयसा हसन्मारुदवाहस्य हरिणस्य पराक्रमं तस्यैव पर्वणो देशे वर्तते दे वाहनोत्तमं किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि वर्तते मदिरासिन्धुर्देवतारूपमास्थिदा माणिक्य गिरिवक्षोणं हस्ते पिशिदपिण्डकं दधाना कूर्णमानाक्षी हेमाम्भोजस्रगावृता मदशक्रिया समाश्लिष्टा धृतरक्तसरोजया यदा यदा दैत्य भण्डदैत्यसङ्ग्रामे सम्प्रवर्तते युद्धस्वेदमनुप्राप्ता शक्तयस्योः पिपासिताः तदा तदा सुरा सिन्धुरात्मानं बहुधा क्षिपन् रणे खेदं देवतानामञ्जसापाकरिष्यति तदप्यद्भुतमे वर्षे भविष्यदि न संशयः सदा मुदा तस्यैव पर्वणो धस्तादष्टदिक्ष्वख एव हि उपर्यपि कृता हेदुकाद्या दशस्मृताः महान्तो भैरवश्रेष्ठाख्यादा विपुलविक्रमाः उद्दीप्तायुध तेजोभिर्दिवा दीपितभानवः कल्पान्तकाले दण्डिन्या आज्ञया विश्वकस्मराः दग्रप्रकृतयो। रदष्टौष्ठसम्पुटाः त्रिशूलाग्रविनिर्भिन्नमहावारिधमण्डलाः हे दुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः यमजिह्वैकपादौ च तथा कालकरालकौ का। भीमरूपो हाडकेशस्तथैव चलनामवान् ये दे दशैव विख्याता दशकोटिफटान्विताः तस्यैव किरिचक्रस्य वर्धन्ते पर्वसीमनि एवं हि किरिचक्रस्य देवताः प्रोक्तास्त्रैलोक्य जृम्भिण्याद्यचलेन्द्रान्दाप्रोक्तास्त्रैलोक्यपावनाः तत्रत्याैर्देवतावृन्दैर्बहवस्तत्र सङ्गरे दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः इत्थं बहुविधत्राणं चक्रराज पर्वस्थर्देवता गण किचक्र दंडने रथरत् चाल गेयर रथोत्तम येयरथस्त किचक्ररथोत्तम ये दध्रथत्रयं तत्र त्रैलोक्यमिव जङ्गमं शक्रिसेनासहस्रस्यान्तश्चचार तदा शुभं मेरुमन्दरविन्ध्यानां समवाय इवा भवद महाकोशः प्रववृते शक्रीनां सैन्यमण्डले चचालवसुधा सर्वा तच्चक्ररवदारिदा ललिताचक्रराजाख्या रथनाथस्य कीर्तिताः षट्सारथय उद्दण्डपाशग्रहणकोविदाः यत्र गेयरथस्तत्र किरिचक्ररथोत्तमम् यदि देवी प्रथमतस्तपुरैरवी संहार भैरव्यो रतगिनी व्लभ सारस पंचमश चामुंडा तथा ये देवताथय स्मृता गेयच चक्ररथेन्द्रस्य सारथिस्तु हसन्तिका किरिचक्ररथेन्द्रस्य स्तम्भिनी सारथि स्मृता दशयोजनमुन्नम्रो ललितारथपुङ्गवः दा सप्तयोजनमुच्छ्रायो गीतसक्ररथोत्तमः षड्योजन समुन्नम्रो किरिचक्ररथो मुने महामुक्तादपत्रं तु दशयोजनविस्तृतं वर्धदे ललिदेशान्या रथ एव न जान्यतः तदेव शक्तिसाम्राज्यसूचकं परिकीर्तितं सामान्यमादपत्रं तु तद द्वन्द्वेऽपि वर्धते अधसालिदेशानि महासाम्राज्यपदवी महासाम्राज्यपदवीमारुढा परमेश्वरी चचालखण्डदेत्यस्य क्षयसिद्ध्यभिकाङ्क्षिणी शब्दायन्ते दिशसर्वा कम्पदे वसुन्धरा क्षुभ्यन्ति सर्वभूतानि ललिते विनिर्गमे देवदुन्दुभयो ने दुर्निपेदुः पुष्पवृष्टयः विश्वावसुप्रभृतयो गन्धर्वासुरगायकाः तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती जय मङ्गलपद्यानि पडन्तः पडुगीतिभिः हर्षसम्फुल्लवदनास्फुरत्पुलकभूषणाः मुहुर्जय जयेत्येवं स्तुवाना ललितेश्वरीम् हर्षेणाढ्यामदोन्मत्ताः प्रनृत्यन्तः पदे पदे सप्तर्षयो वसिष्ठाद्या हृग्यजुस्सामरूपिभिः अथर्वरूपै वर्धयन्तो जय अविशेव अविषेव महावह्निशिखामत्यन्त काविनीम् आशीर्वादेन महदा वर्धयामासुरुतमाः तैस्तूयमाना ललिता राजमाना रथोत्तमे भण्डासुरं विनिर्जेदुमुद्दण्डैः सह सैनिकैः श्री ब्रह्मांड महापुराणे उत्तरभागे किरिचक्र देवदा ललिथ्यारीचक्ररथदेवताशन नाम ओम।